अथ चत्वारिंशः सर्गः देवतानाम् वचः भगवान् वै पितामहः प्रत्युवाच सुसन्त्रस्तान् कृतान्तबलमोहितान् यस्येयम् वसुधाकृत्स्मासुदेवस्य धीमतः महिषी माधवस्यैषा स एव भगवान् प्रभुः कापिलम् रूपमास्थाय धारयत्यनिशम् धरा तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः सगरस्य च पुत्राणाम् विनाशो दीर्घदर्शिना पितामहावच्रुत्वा त्रयस्त्रिंशदरिम् दमाः देवाः परमसंहृष्टाः पुनर्जग्मुर्यथा सगरस्य च पुत्राणाम् प्रादुरासीन्महास्वनः पृथिव्याम् भिद्यमानायाम् निर्घातसमनिस्वनः ततोऽभित्वा महीम् सर्वाम् कृत्वा चापि प्रदक्षिणं सहिताः सागराः सर्वे पितरम् वाक्यमब्रुवन् परिक्रान्तामही सर्वाः सत्त्ववन्तश्च सूदिताः देवदानवरक्षांसि पिशाचोरगपन्नगाः न च पश्यामहेश्वम् ते किम् करिष्याम भद्रम् ते बुद्धिरत्र विचार्यता तेषाम् तद्वचनम् श्रुत्वा पुत्राणाम् राजसत्तमः समन्युरब्रवीद्वाक्यम् सगरो रघुनन्दन भूयः खनत भद्रम् वो विभेद्य वसुधातलम् अश्वहर्तारमासाद्य कृतार्थाश्च सगरस्य महात्मनः षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् खन्यमाने ततस्तस्मिन् ददुषः पर्वतोपमम् दिशा गजम् विरूपाक्षम् धारयन्तम् महीतलम् सपर्वतवनाम् कृत्स्नाम् पृथिवीम् रघुनन्दना धारयामास शिरसा विरूपाक्षो महागजः यदा पर्वणि काकुत्स्थविश्रमार्थम् महागजः खेदाच्चालयते शीर्षम् भूमिकम्पस्तदा भवेत् ते तम् प्रदक्षिणम् कृत्वा दिशापालम् महागजम् मानयन्तो हि पूर्वाम् दिशम् भित्त्वा दक्षिणाम् बिभिदुः पुनः दक्षिणस्यामपि शिरसाधारयम् तङ्गाम् विस्मयम् जग्मुरुत्तमम् ते तम् प्रदक्षिणम् कृत्वा सगरस्य महात्मनः षष्टिः पुत्रसहस्राणि पश्चिमाम् विभिदुर्दिशम् पश्चिमायामपि दिशि महान्तमशलोपमम् दिशा गजम् सौ महाबलाः ते तम् कृत्वा पृष्ट्वा चापि निरामयम् खनन्तः समुपाक्रान्ता दिशम् सोमवतीम् तदा उत्तरस्याम् रघुश्रेष्ठदृशर्हिमपाण्डुरम् भद्रम् भद्रेण वपुषा धारयन्तम् महीमिमा सर्वे कृत्वा चैनम् प्रदक्षिणम् षष्टिः पुत्रसहस्राणि विभिदुर्वसुधातलम् ततः प्रागुत्तराम् गत्वा सागराः प्रथिताम् दिशम् रोषादभ्यखनन् सर्वे पृथिवीम् सगरात्मजाः ते तु सर्वे महात्मानो भीमवेगामहाबलाः ददृशः कपिलम् तत्र वासुदेवम् सनातनम् हयम् च तस्य देवस्य चरम् तमविदूरतः प्रहर्षमतुलम् प्राप्ताः सर्वे ते रघुनन्दना ते तम् ज्ञात्वा क्रोधपर्याकुलेक्षणाः खनित्रलाङ्गलधरा नाना वृक्षशिलाधरा अभ्यधावन्त सङ्क्रुद्धास्तिष्ठतिष्ठेति चाब्रुवन् अस्माकम् त्वम् हि तुरगम् यज्ञयम् हृतवानसि दुर्मेधस्त्वम् हि ततस्तेना कपिले कपिलेन महात्मना भस्मराशी गता सर्वे काकुत्स्थसगरात्मजाः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः